विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे दिष्ट्या मोक्षाद्यशोदीप्तमाप्तं ते यदुनन्दन किं कुर्मः स्पुरुष व्याघ्रा शाधिनः प्रणति स्थितान् कृतमित्येव तद्विद्धि नृपैर्यपि दुष्करम् युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ततः सुप्रीतमनसस्ते नृपा नृपसत्तमा कथेत्येवाब्रुवन् सर्वे प्रतिगृह्यास्यतां गिरम् रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया जरासन्धात्मजश्चैव सह सहदेवो महामनाः निर्ययौ स जनामात्यः पुरस्कृत्य पुरोहितम् शनीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः सः देवो नृणां वासुदेवमुपस्थितः सह देव उवाच यत्कृतं पुरुषव्याघ्रा मम पित्रा जनार्दन तत्ते हृदि महाबाहो न कार्यम् पुरुषोत्तम त्वां प्रपन्नोऽस्मि गोविन्द प्रसादं कुरु प्रभो पितुरिच्छामि संस्कारं कर्तुं देवकीनन्दन त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेना तथार्जुनात् निर्भयो विचरिष्यामि यथा कामं यथा सुखं वैशम्पायनवाच एवं विज्ञाप्यमानस्य सह प्रहष्टो मारिषा प्रहृष्टो देवकीपुत्रः पाण्डवौ च महारथौ क्रियतां संस्क्रिया राजन् पितुस्त इति चाब्रुवन् तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च समागधः प्रविश्य नगरं तूर्णं सहमन्त्रिभिरप्युता चितां चन्दनकाष्ठैश्च कालेऽसरलैस्तथा काला गुरुसुगन्धैश्च तैलैश्च विविधैरपि घृतधाराक्षतैश्चैव सुमनोभिश्च मागधम् समन्तादवकीर्यन्त दह्यन्तं मगधाधिपम् उदकं तस्य चक्रेथ सह कृत्वापितुः स्वर्गगतिं निर्ययौ यत्र केशवः पाण्डवौ च महाभागौ भीमसेनार्जुनाबुभौ स प्रह्व प्राञ्जलिर्भूत्वा विज्ञापयत माधवम्